अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः यथा च नो मतिर्वीरा भविष्यति निश्चेष्टोऽस्माननुप्राप्तः स च संवृत्तः छित्त्वा बन्धनमाशु कोथयन्तं महाबाहुं त्वं वैतं ज्ञातुमर्हसि ततो वासुकिरभ्येत्य नागैरनुगतस्तदा पश्यति स्म महाबाहुं भीमम् भीमपराक्रमम् आर्यकेण च दृष्टः स प्रथाया आर्यकेण च तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम् सुप्रीतश्चाभवत्तस्य वासुखे स महायशाः अब्रवीत्तं च नागेन्द्रः किमस्य क्रियताम् प्रियम् धनौघोरत्ननिचयो वसुचास्य प्रदीयताम् एवमुक्तस्तदानागो नागो वासु किं प्रत्यभाषता यदि नागेन्द्रतुष्टोऽसि किमस्य धनसञ्चयैः रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः बलं नागसहस्रस्य यस्मिन् कुण्डे प्रतिष्ठितं यावत्पिबति बालोऽयम् तावदस्मै प्रदीयताम् एवमस्त्वितितं तं नागं वासुकेः प्रत्यभाषत ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिहि प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः एवमष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः ततस्तु शयने दिव्ये नागदत्ते महाभुजः अशेतभीमसेनस्तु यथा सुखमरिन्दमः इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि भीमसेनरसपाने सप्तविंशत्यधिकशततमोऽध्यायः